अथ पञ्चत्रिंशोऽध्यायः वैशम्पायनुवाच पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः अभिवाद्य ततो राजन्निदं वचनमब्रवीत् भीष्मं द्रोणं कृपं द्रोणीं दुर्योधन विविंशति अस्मिन् यज्ञे भवन्तो माम् अनुगृह्णन्तु सर्वशः इदं वस्तु महच्चैव यदि हस्ति धनम् मम प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रिताः एवमुक्त्वा स तान् दीक्षितः पाण्डवाग्रजः युयोजस यथा भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् परिग्रहे ब्रह्मणानाम् अश्वत्थामानमुक्तवान् राज्ञाम् तु प्रतिपूजार्थम् सञ्जयम् स न्ययोजयत् कृता कृतपरिज्ञाने भीष्मद्रोणौ महामति हिरण्यस्य सुवर्णस्य रत्नानाम् च अन्ववेक्षणे च वैदाने कृपम् राजान्ययोजयत् तथा न्यान् पुरुषव्याघ्रांस्तस्मिन् तस्मिन् ययोजयत् वाह्निको धृतराष्ट्रश्च सोमदत्तो जयद् रथः समानीताः स्वामिवत्तत्र रेमि रे क्षत्ताव्ययकरस्त्वासीद् विदुरः प्रतिजग्राह सर्वशः चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत् सर्वलोकसमावृत्तः पिप्रेषुः फलमुत्तमम्